Sampho, Shankara, Shara Shiva Ramana शङ्करशरणम् मे तव चरणयुगम् एकम् सदिति श्रुत्या त्वमेव सदसि Yeah. <coughs> क्षसूत्रशूल दृहिण करोटी समुल्लसत्तर सा भो साम्ब सदा शिव शम्भो शङ्कर शरणं वेदवचरणम् नाकारगर्भिणी चेत् शुभदाते शरगतिर्नृणामिह भो साम्ब सदा शिव शम्भो शङ्कर शरणं वेदव चरणङ्गम् डितोऽसि धनुषालुव्यधियापं पुरा नरेण विभो साम्ब सदा शिव शम्भो शङ्करचरणं मेकवचरण for dancing मातव न हि माति श्रुति श्रुतिमानीध न्ति सत्त्वं भो साम्ब सदा surav ho sam basada shiva sh षड् त्रिपुषडूमिषड्विकार हर सन्मुख षण्मुखजनकविभो साम्ब मे तव चरणयुगम् सत्यम् ज्ञानामनन्तम् ब्रह्मेत्येतल्लक्षणलक्षित भो सदा शिव शम्भो शरणं मे तव चरणयुगम् हा हा हु हु मुखसुरगायक गीतापदानपत्य विभो साम्बस प्रयोगस्त गन्तवङ्कणं सदास्तु वि